सुषमा कुमारी प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्रमोदिना नया रायप्रे समन्वित कमान नियन्त्रण केन्द्रस्य च उद्घाटनं विहितम् आध्निकीकृत विस्तारित भिलाई स्वास्थ्य नियन्त्रं च राष्ट्राय समर्पितम् केन्द्रीय मन्त्रिणा नितिन गडकरिणा प्रोक्तं यत् दर्ष जलस्य न्यूनता न वर्तत परं योजनानां जल वितरणस्य सम्चितव्यवस्था अभावाच्च जलसंकटम् उपजायत अपि च जम्मूकश्मीर आतंकिभि प्लवामा जनपद राज्यारक्षि केन्द्रीयारक्षितारक्षिबलस्य च दलम् आक्रान्तमस्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वीय छत्तीसगढ यात्रावधौ रायप्र जगदरपुरयोर्मध्य वैमानिक सेवा प्रारब्धा सेवाया माओवाद प्रभावित जनजातीय बस्तर क्षेत्रम् अद्य वैमानिक सेवाया मानचित्रे समाविष्टो जात सडान इति योजनान्तर्गतं प्रारब्धा प्रधानमन्त्रिणा भिलाई क्षेत्र समायोजिते कार्यक्रमे संचार माध्यम सवयं प्रारब्धा असौ अद्य छत्तीसगढे अन्या विकास योजना अपि प्रारब्धा अनन्तरं प्रधानमन्त्री भिलाई इस्पात कर्मशालाया यात्रा विहिता तत्र आध्निकीकृत विस्तारित इस्पात कर्मशालयं राष्ट्राय समर्पिता तत्र प्रधानमन्त्रिणा भारतीय प्रविधि संस्थानस्य नूतन भवनस्य आधारशिला अपि स्थापिता भारतनेट परियोजनाया द्वितीय चरणमपि तत्र जनसभा सम्बोधयन् असौ प्रोक्तवान् यत् राज्ये वृत्ति शिक्षाया नूतनानाम् अवसराणाम् उत्पादनं भविता तदनन्तरं राजधान्यां रायप्रे स्मार्ट सिटी समन्वितां नियन्त्रण केन्द्रमपि उद्घाटितम् डिजल प्रधानमन्त्री श्व डिजिटल भारतस्य लाभार्थिभि साकं दृश्य श्रव्य संलापमाध्यमेन सम्भाषणं करिष्यति नरेन्द्रमोदी एप् इत्यतयो सम्प्रसारयिष्यति स्वीय ट्वीट् सन्देश श्रीमोदिना प्रोक्तं यत् प्राशासनिक कार्ये तीव्रता पारदर्शितां चानेत् निर्धना जना लाभान्विता भवन्ति केन्द्रीयमन्त्रिणा नितिन गडकरिणा प्रोक्तं यत् देशे जलस्य न्यूनता नास्ति परं योजनानां जल सम्यक् व्यवस्था अभावाच्च जल संकटं नवदिल्ल्यां नाबाड प्रकाशन पुस्तकस्य एकस्य विमोचनावसरे गडकरिणा इदं प्रोक्तमस्ति जम्मू कश्मीरस्य पुलवामा नगरे अज्ञात आतंकिभि राज्यारक्षि केन्द्रीयारक्षितारक्षिबलस्य दलमाक्रान्तम रक्षासूत्रै आकाशवाणी सूचिता यत् सुरक्षाबलै प्रत्युत्तर आक्रमणमपि विहितम केनापि आतंकिदलेन आक्रमणस्य उत्तरदायित्वं नैवांगीकृतमस्ति उत्तरप्रदेशे धूलित झंझावात् वृष्टि विद्युत् अवपतन सम्बद्ध घटनास् मृतकानां संख्या एधित्वा त्रयोदश संजाता सामान्य जनजीवनं अस्तव्यस्त संजातमस्ति मणिप्रे गत त्रिष् दिवसेष् वृष्टे जलपूर स्थित्या जनजीवनं दृष्प्रभावितं जातम् तत्र प्रम्ख त्रिप्रा राज्ये भीषण वृष्टे जलाप्लावन स्थिति गभीरायत मुख्यमन्त्रिणा विप्लव कुमारदेव सन्दर्भेऽस्मिन् गृहमन्त्रिणा राजनाथसिंह वार्तालापं विहितम् साहाय्योद्वार कार्याय च सद्य केन्द्रीय सहायता सम्पलब्धम् आग्रहो अपि विहित असमे जलपुरात् जलजीवनं प्रभावितं जातम् जलपूरात् मार्गा कृषिक्षेत्राणि च जलाप्लावितानि दिल्ल्यां सम्प्रवर्तित तृतीय दिवसि वाय् प्रदूषण स्तरम् अत्यधिकं वर्धितम अधिकारिण प्रोक्तवन्त यत् आगामि त्रि चत् दिवसात्मकं स्थिति यथावत् स्थास्यति भारतेनोक्तं यत् लोकतान्त्रिक स्थिति सौहार्दपूर्ण मालदीव तस्य सर्वेष् प्रतिवेशि दर्श मित्रेष् च अन्यतमो वर्तते विदेशमन्त्रालयेनोक्तं यत् भारतेन स्वीय परामर्श प्न व्याहृत यत् मालदीव देशे पूर्व राष्ट्रपतिं दय्यू मुख्य न्यायाधीशम् अब्दुल्ला सईदं समेत्य सर्वे राजनीतिक बन्दिन विमोचितव्या